श्रीहर्ये नमः अतद्वितीयोऽध्यायः श्रीशुक उवाच ततश्चानुदिनं सत्यं शौचं समाधया कालेन बलिना राजन्नाङ्क्षयति आयुर्बलं स्मृतिः वित्तमेव कलौ नृणां जन्माचारगुणोदयः धर्मन्यायव्यवस्थायां कारणं बलमेव हि दाम्पत्ये भिरुचिर्हेतोर्मायै व्यावहारिहे त्रित्वे पुंसत्वे च हिरथेर्विप्रत्वे सूत्रमेव हि लिङ्गमेवाश्रमख्यातो अन्योन्यापत्तिकारणम् अवृत्या न्यायदौर्बल्यं पांडित्ये चाफलं वचः अनाढ्यतैवा साधुत्वे साधुत्वे दम्पयेवतो स्वीकार एव चोत्पाघे नानमेव प्रसाधनं तीर्थं लावण्यं केशधारणम् उदरं भरत स्वार्थसत्यत्वे दार्ष्ट्यमेव हे दाक्ष्यं कुटुम्बपर्णम् यासोऽर्थे धर्मसेवनं एवं प्रजाभिर्दुष्टाभि आकीर्णे क्षितिमण्डले ब्रह्मविशक्त्रसूद्राणां यो बलीभविता नृपः प्रजाकिलुब्धैराजन्यैर्निर्गृणैर्धस्युधर्मभिः आचिन्नधारद्रविणा यास्यन्ति गिरिकाननं फलपुष्पाष्टिभोजनाः अनावृष्विनङ्क्षयन्ते दुर्भिक्षकरभि पीडिताः सीतवाता तपः प्रावृट् हिमैरन्योतः प्रजा प्रजाः शुद्धृप्यां व्यातिभिश्चैव सन्तप्स्यन्ते च निन्तया त्रिषत्विंशति वर्षाणि परमायुक्कलो नृणां क्षीयमाणेषु देहेषु देहिनां कलिदोषतः वर्णाश्रमवतां धर्मे नष्टे वेदपथे नृणां पाकण्ठपरशुरे धर्मे तस्युप्रजेषु राजसु शौर्यान्तव्राहिंसा नानावृत्तिषु भैनृषु शूद्रप्रायेषु वर्णेषु चाघप्रायासु धेनुषु गृहप्रायेषु आश्रमेषु यौनप्रायेषु बन्धुषु अनप्राप्य स्वोषधीषु सविप्रायेषु स्थास्नुषु विद्युत्प्रायेषु मेघेषु शून्यप्रायेषु सद्मसु वित्तं कलौ गतप्राये जने तु करधर्मिणे धर्मत्राणाय सत्त्वेन भगवानवतरिष्यति चराचर गुरोर्विष्णो ईश्वरस्याखिलात्मनः धर्मत्राणाय साधूनां धर्मकर्मापनुत्तये सम्बलग्राममुख्यस्य ब्राह्मणस्य महात्मनः भवने विशस कल्किः प्रादुर्भविष्यते अश्वम् माशुगमारुह्य देवदत्तं जगत्पतिः असिनासाधुधमनम् अष्टैश्वर्यगुणान्वितः विचरन्ना सुनाक्षोण्यां हयेनाप्रतिमद्युतिः प्रपलिङ्गश्च धोतस्योन् कोटिशो निश् निख निष्यति अते भविष्यन्ते मनांसि विसधानि वै वासुदेवाङ्गराघाते पुण्यगन्धानि लस्पृशां पौराजनपधानां वै अतेष्वकिलदश्युषु तेषां प्रजाविसर्गश्च स्तभिष्टः वासुदेव भगवते सत्त्वमूर्तौ हृदि स्थिरे यथावतीर्णो भगवान् कल्किर्धर्मपतिर्हरिहे कृतं भविष्यति तथा प्रजासूतीश्च सात्त्विकी यदा चन्द्रश्च सूर्यश्च तथातिष्य तिष्य बृहस्पति एकरासौ समेष्यन्ते तथा भवति तत्पृथं तथा भवति तत्कृतं एतीता वर्तमानाये ये, ये भविष्यन्ति च पार्थिवाः ते उद्देशतः प्रोक्ता वंशीया सोमसूर्ययोः आरभ्य भवतो जन्म यावन्नन्दाभिषेचनं ये तत् वर्षहरस्रंस्तो रत्सतं पञ्चदशोत्तरं सप्तर्षीणां तु यौ दृश्यते बुदितौ दिव्यं तयोस्तु मध्ये नक्षत्रं दृश्यते यत्समं निसें तेनैतरुषयो युक्ता तिष्ठन्ध्यप्तस्ततं नृणां ते त्वदीयो द्विचा काले अधुना शाश्रितामघः विष्णोर्भगवतो भानो कृष्णाक्योऽसौ दिवं गतः तथा विसत्कलिर्लोकम् पापे यत्र मधे जनः यावत् सपादपद्माभ्यां प्रशन्नास्तेरमापतिः तावत् कलिर्वै पृथिवीं पराक्रान्तुं न शासक यथा देवर्षसब्द माघासु विचरन्ति हे तथा प्रवृत्तस्तु कलेर्द्वादशाब्दशतात्मकः यथा मघाभ्यो यास्यन्ते पूर्वाषाढामकर्षयः तदानन्दाप्रभृत्येष कलिर्वृद्धिं गमिष्यते यस्मिन् कृष्णो दिवं यातस्तस्मिन्नेव तदाहतिं प्रतिभन्तं कलियुकम् इति प्राहुपुरावितः दिव्याब्धानां सहस्रान्ते चतुर्थे तु पुनः कृतं भविष्यति यथा नृणां मन आत्मप्रकाशकम् इत्येषमानवाभंशो ततो विसूत्रविप्राणां तास्ताज्ञो युगे युगे एतेषां नाम लिङ्गानां पुरुषाणां महात्मताम् कथामात्रावसिष्ठानां कीर्तिरेव स्थिता भुवे देवाभिशन्तनोर्भ्राता मरुश्चेष्वाकुभं स जहां कलाभराम आसाते महायोगबलान्वितौ ता विहैत्यकलन्रेन्ते वासुदेवानुशिक्षितौ वर्णाश्रमयुतं धर्मं पूर्ववत् प्रथयिष्यतः कृतं त्रेधा द्वापरं च कलिश्चेति चतुर्युगम् अनेन क्र क्रमयोगेन वर्तते राजन्ने प्रोक्ता नरदेवास्तथा परे भूमौ मम त्वं कित्पेवां निधनं गताः कृमिभस्मसंज्ञाधो राजनां सोऽश्यतां भूतदृक् तत्कृते किं वेदनिरयो यतः कथं सेयमकण्ठाभो पूर्वैर्मे पुरुषैर्धृतां मत्पुत्रस्य च पौत्रश्च मत्पूर्वा वंसजस्य तेजोभन्धमयं कायं गृहीत्वा तं दया तया भूताः मह्यं मम तया चोभो हित्वा देग्दर्शनं गता ये ये भूपतयो राज्यन् भुञ्जन्ति भुवमोजसा कालेन ते कृता सर्वे कथा मात्रा कथासु च इति श्रीमद्भागवते मखापुराणे द्वादशस्कन्ते द्वितीयोऽध्याय क सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमगराजके जय